श्रीहरये नमः अथ नवमोऽध्यायः श्रीसुक उवाचा आत्ममायामृते राजन् परस्यानुभवात्मनः न घटेतार्तसम्बन्धस्वप्नद्रष्टुरिवाञ्झसा बहुरूपयि वा मायया बहुरूपया रममाणो गुणेश्वस्य ममाहमिति मन्यते यहि वावमहिं निःस्वे परस्मिन्कालमाययोः रमेतगतसम्मोकस्त्यक्त्वोदास्ते तथोभयम् आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवान् ऋतं ब्रह्मणे दर्शयन् रूपम् अव्यलीकव्रधादृतः स्वादिदेवो आदिदेवो जगतां परो मास्थाय शुश्रुक्षयैक्षतां तां नात्यगच्छदृशमत्र सम्मतां प्रपञ्चनिर्माणवितिर्यया भवेत् स चिन्त्यन् द्वयक्षरं येगधां गाम्बसे उपाश्रुणोद्विगर्गतितं वचो विभुः पश्येषु यत् शोटसमेकविंशं निष्किञ्चनानां नृभयद्धनं विदुः निसंयतत्वया दिशोऽ विलोक्य तत्रान्यत् अपश्यमानः स्वधिष्ण्यम् आस्थाय विंसृश्य तद्धितं तपस्युभा दिष्ट इवा दधे मनः दिव्यं सहस्राब्धम् अमोघदर्शनो जितानिलात्मा विजितोपयेन्द्रियः अतप्यतस्मा किलोकतापनं तपस्तपीयांस्तपधां समाहितः तस्मै स्वलोकम् भगवान् सभाजितः सन्दर्शयामास परं विमोह साद्वसं व्यभेतशङ्क्लेशविमोह साध्वसं स्वदृष्टवद्भेर्विबुधैरभिष्ठुतम् प्रवर्तते यत्र रजस्तमस्तयो सत्वं च मिश्रं न च कालविक्रमः अनुव्रता यत्र सुरासुरार्चिताः श्यामावधाता सतपत्रलोचना विशङ्गवस्त्रासुरजसुपेशसहा सर्वे चतुर्भागभुन्मिषन्मणि प्रवेगनिष्काभरणा ैधूर्य मृण्णालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः भ्राजिष्णुर्भिर्य परितो विराजते लजद् विमानवलिभिर्महात्मनां विद्योतमानः श्रीर्यत्र रूपिण्युरुघायपाधयो करोति मानं बहुधा विभूतिभिः प्रेङ्गं श्रिता या कुसुमागरानुघैर्विधीयमाना प्रियकर्म गायति तदर्श तत्रा किल सात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिं विभुं भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननं किरीटिनं कुण्डलिनं चतुर्भुजं पीताम्बरं वक्षसि लक्षितं श्रिया अध्यर्हणीयासनमस्तितं परं व्रतं चतुश्चोटसपञ्चशक्तिभिः युक्तं भगैस्वैरित्र चातृवै स्व एव धामन् रममाणमीश्वरं तद्दर्शनाक्लादपरिप्लुतान्तरो हृष्यत्तनुःप्रेम पराश्रुलोचनः न नाम पादाम्बुजमास्य विश्वश्रु यत्पारमहंस्येन पदाधिगम्यते तं प्रीयमाणं समुपस्थितम् तथा प्रजाविसर्गे निजशासनार्हणम् भभाषीशस्मितशोचिषागिरा प्रियप्रियं प्रीतमनाकरे स्पृशन् श्रीभगवानुवाच त्वयाहं दोषितः देवगर्भशिश्रुक्षया चिरं वृथेन तपसा दुस्दोषकूटयोगिनां वरं वरय पत्रं ते वरे समाभिवाञ्चितं ब्रह्म श्रेयः परिश्राम पुंसो मद्धर्सी मनीषिधानुभावोऽयं मम लोकवलोकनं यदुपश्रुत्य रहसि च कर्त परमं तपः प्रध्यादिष्टं मया तत्र तपो मे हृदयं साक्षात् आत्माकं तपसो नगा, सृजामि तपसै वेदं ग्रसामि तपसा पुनः बिभर्मि तपसा विश्वं वीर्यं मे ध्वश्चरं तपः भगवन् सर्वभूतानाम् अद्य शोवस्थितो गुहां वेदह्यप्रतिरुद्धेन प्रज्ञानेन सिकीर्षितम् तथापि नातमानस्य नातनातयनातीतं परावरे यथा रूपे जानीयां ते त्वरूपिणः यथात्ममाया योगेन आत्मानमात्मना क्रीडस्य मोघसङ्कल्प ऊर्णनाभिर्यतोऽर्णुते तता देहि मनीषामयि माधव भगवच्छिक्षितमहं करवाणी ह्यतन्धृतः नेहमानः प्रजा सर्गं या यावत् सकाशक्युरिवेषते कृतः प्रजाविसर्गे विभजामि अविक्लवस्ते परिकर्मणि मा समुन्न मे समुन्नद्धमधोजमानिनः श्रीभगवानुवाच ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितं सरहस्यं तदङ्गं च ग्रहाणगतितं मया या वानहं यथा भावो यद्रूपगुणकर्मकः तथैव तत्त्वविज्ञानम् अस्तु ते मदनुग्रहात् अहमेवासमेवाग्रेणान् यत् यत्तदसत्परं पश्चादहं यदेतच्च योऽ वशिष्येतस्योस्म्यहम् रुतेऽर्थं यत् प्रतीयेत न प्रीतियेत चात्मने तद्विद्याधात्मनो यथा महान्ति भूतानि भूतेषुश्चावचेष्वणो प्रविष्टान्यप्रविष्ठानि तथा तेषु न तेष्वहं ये तावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः अन्वयव्यतिरेकाभ्यां यत्स्यात् सर्वत्र सर्वधा एधन्मतं समातिष्ठ परमेण समाधिना भवान् कल्पविकल्पेषो न विमोह्यधिकर्हिषित् श्रीशुक उवाच सम्प्रतिस्यैव मजनो जानानां परमेष्टिनं पश्यतस्तस्य तध्रूभम् आत्मनो न्यरुणत् हरिः प्रियार्थाय हरये विहिताञ्जलिः सर्वभूतमयो विश्वं ससर्जेतं स प्रजापतिर्धर्मपधिरेकथा नियमान् यमान् भद्रं प्रजानाम् अन्विच्छन्धातिष्ठत् स्वार्थगां यया तं नारतः प्रियतमो ऋग्धातानाम् अनुव्रतः शुश्रूषमाणः शीलेन प्रश्रयेण महाभागवतो राजन् पितरं पर्यतोषयत् तुष्टं निशाम्य पितरं लोकानां प्रवितामहं देवर्षि परिपप्रश्च भवान् यन्मानुपृच्छते तस्मायितं भागवतं पुराणं दसलक्षणम् प्रोक्तं भगवता प्राक् प्रीतः पुत्राय भूतकृत नारदः प्राक् मुनये सरस्वत्यास्तटेर्नृपा ध्यायते ब्रह्मपरमं व्यासाय अमित तेजसे यदुदाहं पया पृष्टो वैराजात्पुरुषात् इति यथासीत् तदु भाक्यास्ते रस्नान् अन्याश्च इत भागवते महापुराणे द्वितीयस्कंधे सर्वत्र गोपिका जीवन स्मरण गोविंद गोविंद सद्गुमहराज के जय